श्रीहरये नमः अतः षष्ठोऽध्यायः राजोवाच नूनं भगव आत्मा रामाणां योगसमीरितज्ञानावभर्जितकर्मबीजानाम् ऐश्वर्याणि पुनः श्लेशधानि भवितुम् अर्हन्ति यो भगधानि ऋषिरुवाच सत्यमुक्तं किन्त्विह भा एकमनसोद्धा विश्रम्भ मनवस्थानस्य सटकिरात इव सङ्घश्चन्ते तथा उक्तं न कुर्यात् कर्हिचित्सक्यं मनसि ह्यनवस्थिते यत् विश्रम्भा चिराचीर्णं सस्कन्दतप ऐश्वरं नित्यं दधाति कामस्य चित्रं तमनुयेरयः योगिनः कृतमैत्रस्य पत्युर्जा कामो मन्युर्मथो लोभ सोकमोह भयाधयः कर्मभन्तश्च यन्मोलक् स्वीकुर्यात् को नु तद्भुतः अवधूतवेशभाषाचरितै अविलक्षितभगवत्प्रभावो योगिना साम्पराय स्वकेलवरं जिहासुरात्मनि आत्मानम् असंव्यवहितम् अर्थान्तरभावेन अन्वीक्षमाण उपरतानुवृत्ति उपरराम तस्य ह वा कलिङ्गस्य भगवतऋषभस्य योगमाया वासनया देह इमां जगतिमभिमानभासेन सङ्क्रममाणः कोङ्कवेङ्कककुटकान् दक्षिणकर्णाटकान् देशान् यदृश्चयो भकतकुटकाशलोपवन आस्य कृतास्म कवल उन्माद इव मुक्तमूर्धजो संवेत एव विचाचार अथ समीरवेगविधूतवेणो विकर्षणजोग्रं धाभानलसध्वनमालेलिहानः सखते न धताः यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानाम् राजार्हन्नामोपशिष्य कलावधर्म उत्रुष्यमाने भवितव्येन विमोहितस्वधर्मपतमकुतोभयम् अपहाय कुपतपाकण्डम् असमञ्जसं निजमनीक्षया मन्दः येन ह वा कलौ मनुजा वसधा देवमाया मोहिताः स्वविधिनियोगसौचारित्रविहीना देवहेलनानि अपव्रतानि निज ह्नाना अस्नान अनाचमन अचौच केशो लुञ्चनाधीनि कलिनाधर्म बहुलेने अपहदधियो ब्रह्म ब्राह्मण यज्ञपुरुष लोकविदूषकप्रायेण भविष्यन्ती ते निजलोकयात्रया अन्धपरम्परया स्वस्ता स्मस्यन्धे प्रपदिष्यन्ते अयमवतारो रजसा उपलुप्तकैवल्योपशिक्षणार्थः तस्य अनुगुवान् श्लोकान् गायन्ति अहो भुवः समुद्रवत्या द्वीपेषु वस्येश्वरिपुण्यमेतत् गायन्ति यत्रत्यजनामुरारे कर्माणि भद्राणि अवतारवन्ति अहोनुवंशो यशसा वधाथः प्रयव्रतो यत्र पुमान् पुराणः कृतावधारपुरुषः आद्य चचारधर्मं यदकर्महेतुम् कोन्वस्य काष्ठाम् अपरोनुगश्चेत् मनोरथेन अभ्यभवस्य योगी यो योगमाया स्पृहयस्त्युदस्ता ह्यसत्ययायेन कृतः प्रयत्नः इति हस्म सकलभेतलोगदेव ब्राह्मणगवां परमगुरोर्भगवतरुषभाग्यस्य विशुद्धाचरितमीरितं पुंसां समस्त दुश्चरिधाहरणं परममः मङ्गलाय नमितम् अनुश्रद्धया उपचितय अनुशृणोति आश्रावयति भावहितो भगवती तस्मिन् वासुदेव एकान्ततो भक्तिरनयोरपि समनुवर्तते यस्यामेव कवय आत्मानम् अविरथं विवितवृजिनसंसार परितोभो बधव्यमानम् अनुसवनं स्नापयन्तस्तयैव परया निर्वृत्या ह्यभवर्गम् आद्यन्तिकं परमपुरुषार्थम् अपि स्वयमासादिधं नो ये वान्द्रियन्ते भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः राजन्पतिर्गुरुरलं भवतां यधूनां दैवं प्रियः कुलपतिक्वचकिङ्करो वा अस्मत्त्वेवमङ्गभगवान् भजता मुगुन्तो मुक्तिं दताति कर्षिचित् स्मनभक्तियोगं नित्यानुभूतनिजलाभनिवृत्ततृक्ष्णः श्रेयस्तत्र च नया लोकस्य करुणाभयमात्मा लोकम् आज्ञां नमो भगवते ऋषभाय तस्मै इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्ते ऋषभदेवानुचरिते षष्ठोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथभगराजकी जय